नारदपुराणं पूर्वार्धम् अध्यायम् हण्ड्रेड् अण्ड् एय्ट् ब्रह्मोवाच मरीचे शृणुवक्ष्याभि पुराणं गरुडं शुभं गरुडाय ब्रविपृष्ठो भगवान् गरुडासनः एकोनविंशसहस्रं तार्क्ष्य कल्पकथान्विधम् पक्रम सूर्यादि पुराणोपक्रमप्रश्नसर्गसङ्क्षेपतस्ततः सूर्यादिपूजनविधिर्दीक्षा विधिरतः परम् श्राद्धपूजा तदपश्चान्नवव्यूहार्चनम् द्विजा पूजाविधानम् च तदा वैष्णवम् पञ्चरम् तदः योगाध्यायस्ततो विष्णोर्नाम साहस्रकीर्तनम् ध्यानम् विष्णोस्ततः सूर्यपूजा मृत्युञ्जयार्चनम् मालामन्त्रशिवार्चादगणपूजा ततः परम् गोपालपूजा त्रैलोक्य मोहनश्रीधरार्चनम् विष्वार्च विष्णुवार्च पञ्चतत्वार्च चक्रार्च देवपूजनम् न्यासादिसन्ध्योपास्तिश्च दुर्गार्चाध सुरार्चनं पूजामाहेश्वरी चाधपवित्रारोपणार्चनं मूर्तिध्यानवास्तुमानं प्रासादानां च लक्षणं प्रधिष्ठा सर्वदेवानां पृथक् पूजाविधानदः योगोष्ठाङ्गोदानधर्मा प्रयच्चित्तविधिक्रिया द्वीपेशनरकाख्यानम् सूर्यव्यूहश्च ज्योतिषम् सामुद्रिकम् स्वरज्ञानम् नवरत्नपरीक्षणम् माहात्म्यमधतीर्थानाम् गया माहात्म्यमुत्तमम् ततो मन्वन्तराख्यानम् पृथक् पृथग् विभागशः पित्राख्यानम् वर्णधर्मा द्रव्यशुद्धिसमर्पणम् श्राद्धं श्राद्धम् विनायकस्यार्चा ग्रह यज्ञस्तथाश्रमे जननाख्यम् प्रदशौ जम्निधिशास्त्रम् प्रदोक्तयः सूर्यवंशसोमवंशोऽवतारकथनम् हरे हे रामायणम् हरेर्वंशो भारताख्यानकम् ततः आयुर्वेदनिदानम् प्राक् चिकित्सा द्रव्यजागुणाः रो कग्नं कवचं विष्णोर्गाजुडं त्रयीपुरो मनुः प्रश्नचूडामणिश्चान्दो हयायुर्वेदकीर्तनं पोषखी नाम कथनं ततो व्याकरणोहनं छन्दश्शास्त्रं सदाचारस्तदस्नानविधिस्मृतः तर्पणं वैश्वदेवं च सन्ध्या च नित्यश्राद्धं सर्पिडाख्यं धर्मसारोकनिष्कृतिः प्रतिसंक्रम उक्ता स्म युगर्मा कृते योगशास्त्रं विष्णुभक्तिर्नमस्कृति फलं हरे हे माहात्म्यं वैष्णवं चाद नरसिंहस्तवोत्तमं ज्ञानामृतं स्तोत्रम् विष्णुवार्चनाह्वयं वेदान्तसाङ्ख्यसिद्धान्तो ब्रह्मज्ञानं तथात्मकम् इदसारफलो कीर्तिपूर्वखण्डोऽयमीरिदः आधास्यैवोत्तरे खण्डे प्रेतकल्पुरोदितः यत्र तार्क्ष्येण सम्पृष्टो भगवानाहवाण्डवाः धर्मप्रकटनं पूर्वं दानादिकं फलं चाभिप्रोक्तमन्त्रोर्धदैहिकं यमलोकस्तमार्गस्य वर्णन च ततः परं षोडशश्राद्धबलगो वृत्तान्तश्चात्रवर्णिदग निष्कृद्यैर्यममार्गस्य धर्मराजस्य वैभवं प्रेदपीडां विनिर्देश्यप्रेतचिह्ननिरूपणं प्रेदानां चरिताख्यानं कारणं प्रेतदां प्रति प्रेदकृत्यविचारश्च सर्पिडी करणोक्तय प्रेतत्वमोक्षणाख्यानं दानानिजविमुक्तये आवश्यकोत्तमं दानं प्रेदसौख्य करोहनं शारीरक विनिर्देशो यमलोकस्य वर्णनं प्रेद द्वोद्धारकथनं प्रेतध्वोद्धारकथनं कर्मकर्तृविनर्णयः मृत्यो पूर्वक्रियाख्यानं पश्चात्कर्मनिरूपणं मध्यषोडशकश्राद्धं स्वर्गप्राप्तिक्रियोहनं सूतकस्यादसङ्ख्यानं नारायणपरिक्रिया ना विश्वस्वर्गस्य माहात्म्यं निषिद्धपरिवर्धनम् अपमृत्युप्रियोक्तिश्च विपाकर्मणां नृणम् कृत्याकृत्यपि विचारश्च विष्णुध्यानविमुक्तये स्वर्गदौ विहिताख्यानं स्वर्गसौख्यनिरूपणं भूर्लोकवर्णनं चैव सप्त भोलोकवर्णनं पञ्चोध्वलोककथनं ब्रह्माण्डस्थितिकीर्तनं ब्रह्माण्डानेकचरितं ब्रह्मजीवनिरूपणम् आत्यन्तिकं लयाख्यानं फलस्तुतिनिरूपणं इत्येतद् गारुडनाम पुराणं भक्तिमुक्कुनां कीर्तितं पापशमनं पठतां शृण्वदानृणां लिखित्वैतत्पुराणं दु विषुवेह्य प्रयच्छति सौवर्णहं स सा युक्माढ्यं विप्रायस दिवं व्रजेद इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे गारूडानुक्रमणीवर्णनम् नामाष्टोत्तरशततमोऽध्यायः ओम्